हरि ओं श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमापुराणे तृतीयस्कन्धे द्वितीयोऽध्यायः व्यास उवाच यत्त्वया च महाबाहो पुष्टोऽहं कुरुषत्तमः तत्प्रज्ञान्नार्दप्राह मया पुरुष्टो मनीश्वरः भारद उवाच व्यास, व्यास किं ते ब्रवीम्यद्य पुरा यं संश्रयो मम उत्पन्नो हृदित्यर्थम् तन्देहासारपीडितः गत्वाहम् पितरम् स्थाने ब्रह्माण्डमपि तौजसम् अपृच्छम् गत्वा पृष्टम् व्यासाद्य प्रश्नमुत्तमम् पितः कुतः समुत्पन्नम् ब्रह्माण्डम् अखिलम् विभो भवत्कृपेन वासम्यक् किं वा विष्णुकृतम् इदम् रुद्रकृतम् वा विश्वात्मन् ब्रूहि सत्यम् जगत्पदे आराधनी यः का कामम् सर्वस्पृष्ट कभौ तत्सर्वं वदमे ब्रह्मन् सन्देहान् छिन्धि चानघ संसारे दुःखरूपे नृपोतमे सन्देहान्दोलितम् चेतो न प्रशाम्याति कुत्रचित् न तीर्थेषु न च अविज्ञाय परं तत्त्वम् कुतः शान्ति परन्दप किं विकिरणम् बहुधा चित्तम् न कत्र स्थिरताम् बृजेत् किं स्मरामि अजेकम् वा कम्बजाम्यम् त्वमेकम् नाभिजानामि देवम् सर्वेश्वरेश्वरम् ततो ताम् प्रत्युवाचेदम् ब्रह्मालोकपितामहः मया सत्यवती सु कुते कृते प्रश्ने सुदुस्तरे ब्रह्मोवाच किं ब्रवीमि सुताद्याहम् दुर्बोधम् प्रश्नमुत्तमम् त्वया शक्यम् महाभागविष्णु अपि सुनिश्चयात् राज्ञी कोऽपि न जानाति संसाधेऽस्मिन् महामते विरक्तश्च विजानाति निरीहो यो विमत्तरः हे कार्णवे पुरा जाते नष्टे स्थावरजङ्गमे भूतमात्रे समुत्पन्ने सञ्जज्ञे कमलादहम् न पश्यं तन्निं सोमं न वृक्षान् न तदा कस्मादहं समुद्भूत सविलेऽस्मिन् को मेत्राता प्रभुः कर्ता संहर्ता वा युगात्यये यदा धारं जलम् पङ्कजम् कथमुत्पन्नम् प्रसिद्धम् रूढियोगयोः पश्याम्यस्य पङ्कम् तम् मूलम् वै पङ्कजस्य च भविष्यति धरा तत्र मूलम् नास्यत्र समुचयः उत्तरम् च लिले तत्र यावद्वर्षसहस्रकम् अन्वेषमाणो धरणिम् नावापताम् यदा तदा तपस्तपेते चाकाशे वागभूतशरीरिणी ततो मया तपः सप्तम् पन्ने वर्षसहस्रकम् श्रयति पुनरुद्भूता वाणी तत्र श्रुता मया विमूढोऽहम् तदा कर्ण्यकम् सृजामि करोमि किम् तदादैत्याप्राप्तो दारुणो मधुकैटभव ताभ्याम् विभीषिरश्चाहम् युद्धाय मकरालये ततोऽहम् नालमालम्ब्य वारि मध्यम् अवातरम् तदा तत्र मया दृष्ट पुरुष परमान्भुम् मेघश्यामशरीरसु पीतवासाश्च दुर्वय शेषगायै जगन्नाथो वनमाला विभूषित शङ्खचक्रगदा पद्माद्यायुधै सुविराजित सम्मद्राक्षम् आविष्णुं शेषपर्यङ्कसायिनम् योगनिद्रा समाक्रान्तम् अविस्पन्दिनमच्युतम् शयानं तं समालोक्य भोगी भोगोपरि स्थितम् चिन्ता ममाधुता दाता किं करोमीति नारद मया स्मृता स्तुता निद्रास्वरूपिणी देहानिर्गत सा देवी गगने संस्थिता शिवा अवितर्क्य श्रीदासा दिव्याभरणमण्डिता विष्णो देहं विहायाशु विरलाभस्थिता उदतिष्ठेदमे पञ्चवर्षसहस्राणि कृतवान् युद्धमुद्विलोकितो दैत्यो हरिणा विनिपातितौ उत्सङ्गं विफुलं कृत्वा तत्रैव निहतौ च तत्रैव सम्प्राप्तौ यत्र वां संस्थितौ भव श्रीभीतं वीक्षितास्माभिः स्वस्था देवी मनोहरा संस्कृता परमा शक्ति उवाचास्मन्नवस्थिताम् कृपावलोकन कृत्वा पावने मुदिता नी उवाच कार्ये शास्वानि कार्याणि कुरुध्वं समतन्द्रितः सृष्टि स्थिति विशिष्टानि हता कृत्वा स्वानिकेतानि वसध्वम् विगतज्वरः प्रयच्छतुर्विधा सर्वम् स विभूतिः कुर्मोवाच तच्छ्रुत्वा वचनं तस्या पेशलम् सुखदम् मृदु अभ्रुमतां शक्तास्म कथं कुर्मस्य मा न मही सर्वत्र विशदम् जलम् न भूता निगुणा चापि तन्मात्राणिन्द्रियाणि च तदा कर्ण्य वचोऽस्माकम् शिवा जाता स्मितानना झटित्यैवागतम् तत्र विमानम् गगनाशुभम् स्ववाचास्मिन् सुराकामम् विजध्वम् विमाने ब्रह्म विद्वीचा दर्शयाम्यद्य चाद्भुतम् विमाने तन्निशम्यवच तस्यामित्युक्ता पुनर्वयम् समारोह्योपविष्टात्मो विमान्धे रत्नमण्डिते मुक्ता रामस्तु किञ्चिजाभेरम्येत्रयस्तत्रा शब्दित शब... विषङ्किताः स्वपविष्टान् ततो दृष्ट्वा देव्यस्मान् विजितेन्द्रियान् स्वशक्त्या तद्विमानम् वैनोदय मा सचाम्बरे इति श्रीमद्देवी भागवते मापुराणे अष्टादशसहस्र्याम् सहितायाम् तृतीयस्कन्धे विमानेन ब्रह्मादीनाम् गतिवर्णनम् अध्याय हे